गणेशपुराणं क्रीडाखण्डम् अध्यायम् हण्ड्रेड् अण्ड् फोर् क उवाच अहम्प्रयातस्तम् द्रष्टुं गुप्तरूपो द्विजोत्तम अदर्शतत्र तं देवमुमया सखिदं प्रभुं स्नात्वासीनं जपन्तं च परं ब्रह्मसनातनम् अहं तमस्तुवं देवं मयूरेश्वरसंज्ञकं पुराणपुरुषं देवं नानाक्रीडाकरं मुदा मायाविनं दुर्विभाव्यं मयूरेशं नमाम्यहम् परात्परं चिदानन्दं निर्विकारं हृदिस्थितं गुणातीतं गुणमयं मयूरेशं नमाम्यहम् सृजन्तं पालयन्तं च संहरन्तं निजेच्छया सर्वविघ्नहरं देवं मयूरेश्यं नमाम्यहम् इन्द्रादिदेवतावृन्दैरभिष्टुतमहर्निशं सदसदव्यक्तमव्यक्तं मयूरेश्यं नमाम्यहम् नानादैत्यनिहन्तारं नानारूपाणि बिभ्रदं नानायुधधरम्भक्रिया मयूरेशं नमाम्यहं सर्वशक्तिमयं देवं सर्वरूपधरं विभुं सर्वविद्याप्रवक्तारं मयूरेशं नमाम्यहम् पार्वतीनन्दनं शम्भोरानन्दपरिवर्धनं भक्तानन्दकरं नित्यं मयूरेशं नमाम्यहं मुनिभ्येयं मुनीनुदं मुनिकामप्रपूरकं समष्टिव्यष्टिरूपं त्वां मयूरेशं नमाम्यहम् सर्वाज्ञाननिहन्तारं सर्वज्ञानकरं शुचिं सत्यज्ञानमयं सत्यं मयूरेश्यं नमाम्यहम् अनेककोटिब्रह्माण्डनायकं जगदीश्वरम् अनन्तविभवं विष्णुं मयूरेश्यं नमाम्यहम् त्वद्दर्शनेन पूदोकम् परमानन्दनिर्भरः आश्चर्यम् परमम् प्राप्तस्तस्य दैत्यस्य मारणाद् येन शक्रोन्तको देवा लोकपालाजिता बलाद् सहस्रशतयो धियो सङ्ख्यदेहोरणेहतः त्रिधा भूतस्त्रिस्थलेषु पदिदः कमलासुरः तं समापूजयामहम् सर्वतीर्थजलैः शुभैः कमण्डलुगतैरेणो नाशकैरभिषेचयम् दिव्यवस्त्रे दिव्यगन्धम् दिव्यपुष्पमयीम् शुभाम् वनमालामस्य कण्ठे दत्त्वा वनमालिदिलोकेषु विख्यातं सर्वमङ्गलं पूजाविधिं समाप्यैनं प्रदक्षिणामधो व्यथाम् आदा मे तत्र न्युज्जतां गमितः क्षणाद नानातीर्थजलयुक्तस्थापितो मे कमण्डलुः यदेहं तज्जलं भर्तुं तदो माम् मयूरश उवाच इदम् ब्रह्मकृतं स्तोत्रम् सर्वपापप्रणाशनं सर्वकामप्रदं नृणाम् सर्वोपद्रवनाशनम् कारागृहगतानां च मोचनं दिनसप्तकाद आधिव्याधिकरम् चैव भुक्तिमुक्तिप्रदम् विधे स्थिरो भवविरिञ्चेत् त्वं नदीयं सर्वपावनि कमण्डलु भवा नाम्ना ख्यादालोके भविष्यति दर्शनद्वाचिकं पापं स्पर्शनाच्च मनोमयं स्नानाच्च कायिकं सर्वं नाशयिष्यादि निम्नगा निरन्तरं सेवनाच्च मोक्षमेषा प्रदास्यति क उवाच एवं दत्ते वरे तेन मुनीश्वराः सदा रासपरिवारा सप्तकोटिगणा अहं तपस्ते पुस्तदा तत्र मुनयस्ते मया सह तदोऽहमायया तस्य मोहेदप्राब्रुवं बहून् जगत्कर्ता जगद्वन्द्यशक्रादिसुरपूजितः बालमेकादशाब्दं तत्कथम् प्रणतवानहम् अर्भकैः क्रीडमानं तमाचाररहितं शिशुं धिङ्मेज्ञानं महत्त्वं च पैदामहपदं च धिक्क इमां सृष्टिं विधाया कं स्थास्यामि गुप्तरूपधृक अयं चेत् परमात्मा स्यादपरां एवं निश्चित्य मनसा सृष्टिमात्मानमेव च अन्तर्धाय स्थितो यावत् तावद्देवो गजाननः न ददर्शसखीन् बालांस्तदस्तेषां गृहानगाद शून्यान् दृष्ट्वा गृहान् सर्वान् खिन्नो वृक्षान नददर्शद्रुमान् जन्तून् पशुपक्षिगणान् यदा तदा स्वर्गम् गतो देवो नापश्यत्तत्र तान् सुरान् गन्धर्वान् किन्नरान् यक्षान् शशिरवीन च अन्धकारे गाढतमे न प्राज्ञा ततो सौ प्रणिधानेन ज्ञात्वा ब्रह्म कृतं च यद सामर्थ्यं निजमायां च देवो मयूरेशस्वलीलया विश्वं चराचरं तत्र मयूरेश पुरीमपि स्वं च परिवृद्धं ब्रह्माण्डं च विधं शङ्करं च भवानीं तामनुष्ठानगदान्मुनीन् तपनं शशिनं भानिस्वर्गान् देवगणानपि पृथिवीं सर्ववृक्षांश्च समुद्रान् सरितोऽपि च पातालानि मयूरेशो ददर्श पूर्ववद्विभुः क उवाच तदोकं मृदिमापन्नो पश्यन्दिदात्मकं कलाकाष्ठामुहूर्तादिनपक्षस्वरूपिणं दि दृष्ट्वेद्धं तमकं नत्वा क्षमापयमुदारधीः मासर्तुवर्षकल्पादिचराचरस्वरूपिणम् असङ्ख्यब्रह्माण्डयुधरोमाञ्चैरुपशोभितं देवर्षि यक्षगन्धर्व सरित् गररूपिणम् मनुष्यकिन्नरलता वृक्षपन्नकरूपिणं दृष्ट्वेद्धं तमहं नत्वा क्षमापमुदारधीः पुनः पुनरपश्यं तं मयूरेशं किरीडिनं कुण्डलाभ्यां नूपुराभ्यामङ्गदाभ्यां विराजितं शेषणाभ्यां सर्पकण्ठं दिव्यमालाम्बरावृतम् दिव्यसिंहासनगदं सर्वदेवैरभिष्टुदं सिद्धिबुद्धिसमायुक्तं विभूतिभिरूपासिदं चराचरमयं सर्वनमस्यं तत्स्वरूपिणं प्रत्येकं तत्र चात्मानं तद्रूपं स्वं व्यलोकयं ततस्थं स्तुतवान्नत्वा प्रार्थयं च पुनः पुनः क्षमापराधं मे देव त्वन्मायागर्वितस्य मे प्रभावं द्रष्टुकामस्य दीनस्य चरणार्थिनः क्षणेनानन्दब्रह्माण्डकारिणे तेन मो नमः एवं वदन्तं मां नासा पवनात्सोदरेण यद् तत्रापश्यं सर्वलोकं यथा बहिः देवं तथा विधं चापि कोटिब्रह्माण्डरोमकं सर्वं चराचरं विश्वं यथा भूमौ यथा दिवि ये कस्मादण्डतश्चान्यद् ब्रह्माण्डान्तरमाशिष्यं तथैव दृष्टवान् सर्वानेवं नानाण्डमध्यग अपश्यं विश्वमखिलं स्वात्मानं देवमेव च तद खिन्नो ब्रुवं देवं नान्दं पश्यामि ते क्वचिद कृपां कुरु मम विभो मायामेधां निवारय तदस् करुणाभिष्टः सर्वमन्तर्दधे क्षणाद पुनरेव मयूरेशमपश्यं बालकैर्वृदं क्रीडन्तं पूर्ववन्नत्वा ब्रुवं मायां न देविधम् अपराधसहस्रं मे माध्रुवत्वं क्षमस्व च मयूरे शोब्रवीन्माहि मूर्ध्निहस्तं निवेश्यः देव उवाच न क्रोधो न भिन्नाधि स्वीयः पर इति भ्रमः तस्मादपि भयं मेन न मत्तो भयमन्वपि श्रुत्वेयं वचनं तस्य मयूरेश शिवं भवानीमपि तत् द्राक्ष मुनक गृही व्मा स्वस्थमगम हर्ष निर्भर भवानी बालकैनायान्म्दी स्व बालका श्रीगणेशणे क्रीडाखंडे विश्वदर्शन नाम चतरशतमोध्याय ओं